महावाक्यरत्नावली त्रयोदशं प्रकरणम् अथ सार्धान्तिकस्त्रीलिङ्गस्वरूपवाक्यानि द्वादश अलौकिकपरमानन्दलक्षणा अखण्ड अमिततेजोराशिः भावाभावकला विनिर्मुक्ता चिद्विद्याद्वितीयब्रह्मसंवित्तेः स्वच्चिदानन्दलहरी महात्रिपुरसुन्दरे स्वयं स्वयमेकैव विभाते सर्वसङ्कल्परहिता सर्वसंज्ञा विवर्जिता ैषाचिदविनाशात्मा स्वात्मेत्यादिकृताभिधा आकाशशतभागाच्छाज्ञेषु निष्कलरूपिणी नास्तमेते न ना चोदेते नोत्तिष्ठते न तिष्ठति न च याते सैषा चिदम् मलाकारा निर्विकल्पा निरास्पदा महाच्युदैकैकयहास्ति महाश्रेति चोच्यते निष्कलङ्का समाशुद्धा निरहङ्काररूपिणी सुकृद्विभाता विमला नित्योदयवती समा सा ब्रह्म परमात्मेति नामभिः परिगीयते इति स्त्रीलिङ्गस्वरूपवाक्यानि द्वादश त्रयोदशं प्रकरणं समाप्तम्